मुद्गलपुराणं खण्डं त्रिमहोदरचरितम् अध्यायं ट्वेण्टि टु मान्ता दुश्चरित्रकथनं श्रीगणेशाय नमः नरनारायणावोचदुः चतुर्दशमनूनां वैषट्कं यत्ते प्रकीर्तितं तैस्तपश्चकृतं खोरं गणेशस्य महात्मनः नानामन्द्रजपेन्नैव नानाध्यानपरायणैः निराहारप्रभावेण तोषितस्तैर्गजाननः पूर्णवर्षसहस्रेण ययौ विघ्नपदिः प्रभुः उवाच वृणुदप्राज्ञा वरांस्तान् प्रददाम्यहम् ततस्तैः पूजितो देवस्तुतश्च विविधैस्तवैः बहुत्वान्नैव शक्यं तद्वर्णनं मुनि सत्तम सर्वेषामीप्सितं दत्त्वा ययौ स्वानन्दके पुरे ते सर्वे स्वस्वकर्मज्ञाश्चक्रुस्वस्वक्रिया मुने मन्वन्तरेष्वतीतेषु तैः पुनश्च गणेश्वरः आराधितो विशेषेण योगशान्त्यर्थमादराद क्रमेण ब्रह्मभूतास्ते ययूस्थं गणपं पुनः येकभावेन योगज्ञा योगाकारं महामुने पुत्राश्च बहवस्तेषां वर्णनं नैव शक्यते पौत्रादिक्रमभावेन पालिता तैर्वसुन्धरा वैवस्वतेन्दरे प्राप्तेऽधुना तत्र ब्रवीमि ते शृणु चरित्रकम् मनोऽस्तु दशपुत्रा वैजादाः पितृसमा मुने सुद्युम्नः प्रथमस्तेषां ज्येष्ठा कन्या बभूवः इक्ष्वा गुर्नृगचर्यादिष्टा धृष्णकरुषकः न रिष्यन्त पृषध्रौ च न भगः परिकीर्तिताः न वै दे सूर्यवंशे वै शक्रतुल्यपराक्रमाः ज्येष्ठे चन्द्रस्य वंशो वै स्त्रीभावात् सम्बभूवः शुद्धिं नः स कदाचिद्वै मृगयार्थं वने वनेषु सैन्यसंयोक्तो बभ्रामामिदविक्रमः दैवयोगेन राजायं ययौ गौरीवनं मुने तत्र प्रवेशमात्रेण स्त्रीरूपः स बभूवः शिवेन शैलपुत्र्यार्थं चापिदं तद्वनं सदा मृकण्डदेहज शृणुष्वोऽग्रं वै तत्र कारणम् गौरीवने भवान्यासा नग्नः शम्भुश्च सा तदा नग्नरे मे शिवेनैव तया शम्भुश्च मानदः एकदा मुनयश्रेष्ठ वसिष्ठाद्याः समाययुः दर्शनार्थं महेशस्य तत्र दे विविशुसुखम् तान् दृष्ट्वा लज्जिता देवी शिवश्चैव महामुने ततस्ते विमुखा जग्मुर्मुनयो लज्जिता भृशं ततः शिवेन शापो वै दत्तस्तत्र वने मुने प्रवेशेऽत्र पुमान् सद्यो भवतु स्त्रीस्वरूपधृक सुद्युम्नस्तत्र रूपो विशेषतः शुशुभे यौवनश्रियास्तनभारभरान्वितः सदस्तत्र बुधो देवश्चन्द्रपुत्रः समाययो तेन दृष्टा सुरूपासा नारी मोहकरी मुने सापितं चक्रमे क्रमे तत्र देवरूपं महाप्रभं तेन भुक्ता ययौ स्थानं स्वकीयं लज्जिता भवत तस्यां पुरूरवाजज्ञे चन्द्रवंशधरः प्रभुः श्राद्धकर्मणि विख्यातो बभूव पितृभक्तितः तदर्थं च वसिष्ठेन गणेशस्य महामनुः दत्तो विनायकयेदि नमोन्तस्त्रीस्वरूपिणे राजपुत्रीवनं गत्वा तताप तप उत्तमं शतवर्षयर्गणाध्यक्षस्तां ययौ तया सम्भोजितो डुण्ढिस्तुतस्तस्यै वरं ददौ तया पुरुषभावाय याचितस्च वरः शुभः तथेदितं पुनः सद्य कृत्वा नरसुरूपिणं गणेशशयौ स्थानं स्वकीयं भक्तवत्सलः सुद्युम्नस्य ततस्तस्य पुत्रा जादस्त्रयो मुने उत्कलश्च गयश्चैव विनीतश्च महाबलः पुत्रान् स्वराज्ये महातेजा ययौवनं गणेशं योगमार्गेण तोषयामास नित्यदा शान्तियोगधरसोऽपि बभूव वनसंस्थितः अन्ते सायुज्यदां प्राप्तो गणेशस्य महाबलः सुद्युम्ने इलाना इलानामधरे मुने इक्ष्वाकुं राज्यधर्मे तं स्थापयामास वै वनं ययौ महाभागो मनुर्वैवस्वदो मुने सूर्यात्प्राप्य महामन्त्रं जजापच च षडक्षरम् सूर्येण योगमार्गश्च कथितस्तेन विघ्नपम् अभजद्योगशान्त्यर्थं सोऽपि शान्तो नित्यं गणपतिं स्वर्गे भजच्चानन्यचेतसा महायोगी मनुर्देवं नमुमोच कदाचन इक्ष्वाहुपुत्रकामार्थं वसिष्ठस्योपदेशतः अष्टाक्षरेण मन्त्रेण तोषयद्गणनायकम् शतवर्षा प्रसन्नों भूददौत वरमुत्म स्तुतसूजिदस्ता गणेश गणेश वरदान विकुक्षिस्त चात्मज बभूव सर्व सेजस्वी दृढ़ संस्थाप्य राज्ये राजा ययौह्वनं पुनस्तेन सुमन्त्रेण तोषयामास विघ्नपं क्रमेण शान्तिमापन्न इक्ष्वाकुर्ब्रह्मणो मुने ब्रह्मभूतस्वभावस्थस्वानन्ते गणपं ययौ विकुक्षेरभवन्पुत्रा दश पञ्चमहामुने तेषाम् ज्येष्ठकुत्स्थश्च शृणु तस्य विचेष्टितम् दैत्यैः सन्ताडिदादेवाशरणं तम् नृपात्मजम् ययुः सोऽपि महातेज दैत्यान् योद्धुम् समाययौ अत्रेन्द्रं वृषभं तस्य कृत्वा कगुदिसंस्थितः जकानदैत्यपान् सर्वान् विजयी चाभवन् नृपः ककुस्तस्तेन देवेन्द्रनाम्ना सङ्कीर्तितो नृपः स गणेश्वरभक्तो वै ययौ विघ्नेश्वरं परं तदो नेनाः पृथुस्तस्माद्विश्वरन्धिश्च तत्सुधः तस्माच्चन्द्रो महाबाहुस्तस्माच्च युवनाश्वः तस्माच्चाबस्तनामाभूत् बृहदश्वश्च तत्सुधः तदः कुवलयाश्वश्च पुत्रो भूदेवदुन्धुः दुन्धुं हत्वा महादैत्यं दुन्धुमारो बभूवः दुन्धुमारस्य पुत्र वैत्रयः प्रोक्ता महामुने दृढाश्वकपिलाश्व भद्राश्वश्च महाबलः दृढाश्वस्य च महाबलपराक्रमः हर्यश्वस्य निकुम्भोऽभून् निकुम्भाद्बर्षणाश्वकः कृशाश्वरणाश्वश्च द्वौ पुत्रौ तस्य सम्मतौ कृशाश्वस्य च पुत्रो भूद्युवनाश्व इति स्मृतः स युद्धे देवतुल्यो वै बभूव परमद्युदिः तेन पुत्रार्थमानन्दान्मुनिभिश्च महात्मना वरुणस्य कृतो यज्ञस्तत्र तैर्मन्त्रितं जलं रात्रौ राजापौ विप्रतृषिदो दैवयोगधः ब्राह्मणैश्च तदा केनपीदं जलं पीदं राज्ञापीदं विदित्वा देवि स्मिदा ब्राह्मणास्तदः राजशार्दूलं किं कृतं च त्वया प्रभो तवोदारे तदा गर्भो भविष्यदि न संशयः यवमुक्त्वा चदे यज्ञं पूर्णं कृत्वा ययुस्थलम् उदरे युवनाश्वस्य गर्भः मुने सम्पूर्णे तत्र देवेन्द्रो गर्भे तस्य महात्मनः विदार्यजठरं सद्य पूर्ववत्तं चकारः कं धास्यदि कुमारोऽयं तत्रेन्द्रस्थानुवाचः मां धास्यदि तदस्तेन मान्धादाकथितो द्विजैः इन्द्रेण वर्धितः सोऽपि रराजपरमद्युधिः स तु सर्वान्वशी कृत्वा सार्वभौमो बभूवः अव्याहदगतिर्लोके देवतुल्यो विशेषतः गुणावर्णयितुं शक्या मान्धादुर्न महात्मनः स एव गणराज्यं तमभजन्नित्यमादराद वसिष्ठाद्योगमाश्रित्य योगिवन्द्यो बभूवः पुरुकुत्सत्सुतस्तस्य संस्थाप्य स वनं ययौ गणेशभक्तिं वै चकारान्ते लयं व्ययौ स्वानन्दे गणपे विप्रब्रह्मभूतस्वभावतः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये कण्डे महोदरचरिते मान्धादुश्चरित्रकथनं नाम द्वाविंशतितमोऽध्यायः ओम्